अथ प्रथमाष्टके तृतीयप्रश्नप्रारम्भः ओ देवासुराः संयत्तासन् ते देवाविजयमुपयन्तः अग्नेशोमयोस्तेजस्विने स्तनोः सन्यदधत इदमु नो भविष्यति यदि नो जेष्यन्ते दे। तेनाग्नेशो मावपाक्रामताम् ते देवा विजित्य अग्नेशो मावन्वैच्छन् तेमन्वविन्दम् ऋदृशोत्सन्नम् तस्य विभक्तेभिस्तेजस्विने स्तनोरवारुन्धत ते सोमवन्वविन्दन् तमघ्नन् तस्य यथाभिज्ञायन्तनोर्व्यगृह्णत ते ग्रहा अभवन् तद्ग्रहाणाम् ग्रहत्वम् यस्यैवम् विदुषो ग्रहा गृह्यन्ते तस्यत्वेव गृहीताः नानाग्नेयम् पुनराधेये यदना कुर्यात् यदनाग्नेयम् पुनराधेये कुर्यात् विर्थमेव तत् अनाग्नेयम् एतत्क्रियते यत्समितस्तनो न पातमिटो बहिर्यजति भावाग्नेयावाद्यभागो स्याताम् अनाद्यभागो भवत इत्याहुः दुभावाघेयावन्वञ्चाभिधे अग्नगे पवमानायोत्तरः स्यात् यत्पवमानाय तेनाज्यभागः तेन सौम्यः बुधन्वर्त्यास्याज्यभागस्य पुरोनुवाक्या भवति यथा सुप्तम् बोधयति तादृगेव तत् अग्निन्यक्ताः पत्नी सञ्जानामृतस्युः तेनाग्ने जगुम् सर्वम् भवति एकधा तेजस्विनेयम् देवतामुपैतेत्याहुः सैनमेश्वरा प्रदः इति मेति ब्रूजात् प्रजननम् वा अग्निः प्रजननमेवोपैतेति कृतयदुःसम्भृतसम्भार इत्याहुः सम्भृत्या सम्भाराः न यजुः कार्यमिति अथो एव सम्भाराः कार्यम् यजोः पुनराधेयस्य समृद्ध्यै तेनोपागुंशु प्रचरति एष्य इव वा एषः यत्पुनराधेयः यथोपागुंशु नष्टमिच्छति तादृगेव तत् उच्चैः सृष्टकृतमुत्सृजति यथा नष्टम् वित्त्वा प्राहायमिति तादृगेव तत् एकधा तेजस्विने इम् देवतामुपैतेत्याहुः सैनमेश्वरा प्रदः इति तत्तथा नोपैते प्रयाजानो याजेष्वेव विभक्तेः कुर्यात् यथा एवम् पत्नी तद्वै ईश्वरवत्प्रजननवत्तरमुपैतीति तदाहुः विर्धम् वा एतत् नाग्नेयम् वा एतत् क्रियत इति मेतिब्रूजात् अग्निम् प्रथमम् विभक्तेनाम् यजति अग्निमुत्तमम् पत्नी संयाजानाम् तेनाग्नेयम् तेन समृद्धम् क्रियत इति एवावी यथादर्शम् यज्ञानाहरन्त योऽव्यष्टोमाम् योग्यम् योतिरात्रम् ते सहैव सर्वे वाजपेयमपश्यन् ते अन्यान्यस्मैनातिष्ठन्त अहमनेन यजाविहि ते ब्रुवन् आजिमस्य धावामेति तस्मिन्नाजिमधावन् तम् बृहस्पतिरुदजयत् तेना यजत स स्वारा आज्यमगच्छत् तमिन्द्राब्रवीत् मामनेन याजयेति तेनेन्द्रमयाजयत् स्वग्रम् देवतानाम् पर्येत् अगच्छत् स्वारा आज्यम् अतिष्ठन्तास्मै यैष्ठाय एवम् विद्वाराजपेयेन यजते गच्छति स्वारा अशरकम् समानानाम् पर्येते तिष्ठन्ते स्मै ज्येष्ठ्याय स वा एष ब्राह्मणस्य चैवराजन्यस्य च यज्ञः तम् वा एतम् वाजपेय इत्याहुः वाजा यो वा एषः वाजगृह्येतेन देवा ऐप्सन् सोमो वै वाजपेयः यो वी सोमम् वाज्ये वेदम् पीत्वा भवति आस्यवाजीजायते अन्नम् वैवाजपेयः य एवम् वेद अत्यन्नम् आस्या अन्नादो जायते ब्रह्म वैवाजपेयः य एवम् वेद अत्यब्रह्मणान्नम् आस्य ब्रह्मा जायते वाग्वैवाजस्य प्रसवः य एवम् करोति वाचा वीर्यम् नैनम् वाचा गच्छति अपिवतीम् वाचम् वदति प्रजापतिर्देवेभ्यो यज्ञान्यादिशत् स आत्मन्वा जपेयमधत्ता अब्रुवन् एष वावयज्ञः यद्वाचपेजः अप्येव नोऽत्रास्त्विति तेभ्य एता उद्धिती प्रायच्छत् तावा एता उज्झितयो ता व्याख्यायन्ते यज्ञस्य सर्वत्वाय देवता नाम निर्भागाय देवा वैर्ब्रह्मणश्चान्नस्य च शमलमपाघ्नन् यद्ब्रह्मणः शमलमासीत् सा गाथा नानाशब्दस्य सासुरा तस्माद्गाजकश्च मत्तस्य शनप्रतिगृह्यम् यत्प्रति गृह्णीयात् शमनम् प्रति गृह्णीयात् सर्वा वा एतस्य वाचो वरुद्धाः यो वाचपे जाजी यान्तरिक्षेजावायौ या वाम यासु यौषधेषु यावनस्पतिषु तस्माद्वाजपेययाज्यार्त्विजिनः सर्वाह्यस्य वाचोऽवरुद्धाः देवा वैयदन्यैर्ग्रहैर्यज्ञस्य नावारुन्धत तदतिग्राह्यैरतिगृह्यावारुन्धत तदतिग्राह्याणामतिग्राह्यत्वम् यदतिग्राह्या गृह्यन्ते यदेवान्यैर्ग्रहैर्यज्ञस्य रावरुन्धे त्वदेव तैरतिगृह्यावरुन्धे पञ्चगृह्यन्ते पाङ्को यज्ञः यावानेव यज्ञः तमाप्त्वावरुन्धे सर्व ऐन्द्रा भवन्ति एकथैव यजमान इन्द्रियम् प्रजापतेराप्ते एकयर्चा गृह्णाति एकथैव यजमाने वीर्यम् दधाति सोमग्रहागिश्च सुराग्रहागिश्च गृह्णाति एतद्वै देवानाम् परममन्नम् यत्सोमः एतन्मनुष्याणाम् यत्सुराः सोमग्रहान् गृह्णाति ब्रह्मणो वा एतत्तेजः यत्सोमः ब्रह्मण एव तेजसा तेजो यजमाने दधाति सुराग्रहान् गृह्णाति अन्नस्य वा एतच्छमलम् यत्सुरा अन्नस्यैव शमलेन शमलम् यजमानादपहन्ते सोमग्रहागिश्च सुराग्रहागिश्च गृह्णाति पुमायै सोमः स्त्रीसुराः तन्मिथुनम् मिथुनमेवास्य तद्यज्ञे करोति प्रजननाय आत्मानमेव सोमग्रहैः स्पृणोति जायागुम् सुराग्रहैः तस्माद्वाजपेजजाज्यमृष्टिल्लोकेऽस्त्रियगम् सम्भवति वाचपेजाभिजिदग्रह्यस्य पूर्वे अपरे सुराग्रहाः पुरोक्षगुम् सोमग्रहान्छादयति पश्चादक्षगुंसुराग्रहान् पापवस्य सस्यविधृत्यै केष वै यजमानः यत्सोमः अन्नगुंसुराः सोमग्रहागिश्च सुराग्रहागिश्च व्यतिषजति अन्नाद्येनैवैनम् व्यतिषजति सम्पृतस्थसम्मा भद्रेण पृङ्क्तेत्याह अन्नम् वै भद्राम् अन्नाद्येनैवै नघुम् सघम् सृजते अन्नस्य वा एतच्छमलम् यत्सुराः पाप्मे वखलु वै समलम् पाप्मना वायनमेतच्छमलेन व्यतिषजति यत्सोमग्रहागिश्च सुरा ग्रहागिश्च व्यतिषजति विवृतस्थविमापाप्मना वृन्देत्याः पाप्मनैवै नघुम् समलेन व्यावर्तयति तस्माद्वाजपेजजाजीपोतो मेऽध्यो दक्षिण्यः प्राणुद्रपति सोमग्रहैः अमुमेव तैर्लोकमभिजयति प्रत्याङ्सुराग्रहैः इममेव तैर्लोकमभिजयति प्रतिष्ठन्ति सोमग्रहैः यावदेव सत्यम् तेन सूयते वादश्रुद्ध्यसुराग्रहा हरन्ति अनुते नैव विशकुंसकुंसृजति शिरण्यपात्रम् मधोः पूर्णम् ददाति मथव्योऽसानीति एकथा ब्रह्मण उपहरति एकथैव यजमान आयुस्तेजो दधाति ब्रह्मवादिनो वदन्दे नाग्निष्टो मो नोक्थ्यः न अथ कस्माद्वाजपेजे सर्वे यज्ञक्रलवोऽवलुध्यन्त इति पशुभिरिति ब्रूयात् आग्नेयम् पशुमालभते अग्न्यष्टोममेव तेनावरुन्धे ऐन्द्राग्ने नोक्षम् ऐन्द्रेण षोडशिनस्तोत्रम् सारस्वत्यातिरात्रम् मारुत्यार्हत स्तोत्रम् एतावन्तो वैयज्ञक्रतवः तान् पशुभिरेवावरुन्धे आत्मानमेव स्पृणात्यग्निष्टोमेन प्राणापानामुक्त्येन वीर्यगुंशोडशिनस्तोत्रेण वाचमतिरात्रेण प्रजाम्बृहतस्तोत्रेण इममेव लोकमभिजगत्यग्निष्टोमेन अन्तरिक्षमुख्येन सुवर्गम् लोकगम् षोडशिनस्तोत्रेण देवयानामेव पथ आरोहत्यतिरात्रेण नागम् रोहति बृहतस्तोत्रेण ते जेवात्मन्धत्त आग्नेयेन पशुना ओ जोबलमयेन्द्राग्नेन इन्द्रियमेन्द्रेण वाचकम् सारस्वत्या उभावेव देवलोकम् च मनुष्यलोकम् चाभिजय किमाहृत्या विशयाः सप्तदश प्राजापत्यान् पशूनालभते सप्तदशः प्रजापतिः प्रजापतेराप्यै प्रजापते श्यामा एकरूपा भवन्ति एवमिरभिप्रजापतिः समृद्ध्यै तान् पर्यज्ञिकृतानुत्सृजति मरत यज्ञमजिघातुम् सन् प्रजापतेः तेभ्य एताम् मारुतीम् वशामालभत पयैवेशमयत् मारुत्या प्रचर्य एताम् समञ्जमयेत् मरुत एव शमयित्वा एतैः प्रचरति यज्ञस्याघाताय एकथा वपाजुहोति एकदेवत्याकथैव एक यजमाने वीर्यम् दधाति नैवारेण सप्तदशसरावेणैतर्हि प्रचरति एतत्पुरोणाशाह्येते अथो पशूनामेव छिद्रमपि दधाति सारस्वत्योत्तमया प्रचरति वाग्भे सरस्वती तस्मात् प्राणानाम् वागुत्तमा अथो प्रजापतामेव यज्ञम् प्रतिष्ठापयति प्रजापतिवाक् अपन्नदती भवति तस्मान्मनुष्याः सर्वाम् वाचम् वदन्ति सा वित्रम् जुहोति कर्मणः कर्मणः पुरस्तात् कस्तद्भेदेत्याह यद्वाजपेयस्य पूर्वम् यदपरमिति सहृदप्रसूत एव यथा पूर्वम् करोति सवने सवने जुहोति आक्रमणमेव तत्सेतुम् यजमानः कुरुते सुवर्गस्य लोकस्य समष्ट्यै वाचस्पतिर्वाचमद्यस्वदाजिनरित्याह वाग्वै देवानाम् पुरान्नमासीत् वाचमेवास्मान्नद्यस्वदयति इन्द्रस्य वज्रोऽसि वार्द्रघ्नलिरथमुपावहरति विजित्यै वाचस्य नु प्रसवे मातरम् महीमित्याह यच्छैवेयम् यच्छास्यामधि तदेवावरुन्धे अथो तस्मिन्नेवो भवेभिषिच्यते अप्स्वन्तरमृतमप्सु भेषजमित्यश्वान्पल्पोलयति अप्सु वाश्वस्य तृतीयम् प्रविष्टम् तदनु वेनन्वपप्लवते यदप्सुपल्पोलयति यदेवास्याप्सु प्रविष्टम् तदेवावरुन्धे बहुवाश्वो सुपल् पूलयति मे ध्याने वैरान् करोति वायुर्वात्वा बा विनुर्भात्वेत्याह एता वा एतम् देवता अग्रे अश्वमयुञ्जन् ताभिरेवैनाने युनक्ते सवस्योज्झित्यै यजुषाजुनक्त्यव्यावृत्त्यै अपान्नवादाशुभे वह्निति सम्माष्टे मेध्याने मेऽध्यानेवैनान्करोति अथोस्तौ द्येवैनानाजगुंसरिष्यतः विष्णुक्रमान् क्रमते विष्णुरेव भूद्देवान् लोकानभिजयति वैश्वदेवो वै रथः अङ्कोऽन्यङ्कामभितो रथ्याविहत्याः या, या एव देवतारथे प्रविष्टाः ताभ्यरेव नमस्करोति आत्मनो नार्त्यै अशवरथम् भावुकोऽस्यर्थो भवति य एवम् वेद देवस्याः गुंसवितुः वे प्रसवे बृहस्पतिना वा जलिता वाजञ्जेशमित्याह सवितप्रसूत एव ब्रह्मणा वाजमुज्जयति देवस्याः गुंसवितुः प्रसवे स्थगितप्रसूत एव ब्रह्मणा वरिषिष्ठन्माकगम् रोहति चात्वादेरथचक्रम् निमितगम् रोहति अतो वा अङ्गिरस उत्तमास्वर्गम् लोकमायन् साक्षादेव यजमानः सुवर्गम् लोकमेति आवेष्टयति वज्रो वज्रेणैव दिशोऽभिजयति वाहि रागुंसामगायते अन्नमेवावरुन्धे वाचो वर्ष्मदेवेभ्यो वा आक्रामत तद्वनस्पतीम् प्राविशत् सैषा वाग्वनस्पतिषु वदति यादुन्दुभौ तस्माद्दुन्दुभिः सर्वा वाचो यिवदति दुन्दुभिम् दुन्दु समाघ्नन्ति परमा वा वाचमवरुन्धे अथोवाच एव वर्ष्म यजमानो वरुन्धे इन्द्राय वाचम् वदतेन्द्रम् वाचम् जापयतेन्द्रो वाचमजगित्याह एष एतर वा एतर्हीन्द्रः यो यजमान एव वाचमुज्जयति सप्तदश प्रञ्जाधानादिन्धावन्ति सप्तदशग्निस्तोत्रम् भवति सप्तदश सप्तदश रीयन्ते सप्तदश प्रजापतेरात्ये अर्वासि सप्तिरसि वाज्यसीत्याह अग्निर्वा अर्वा बाजुः सप्तिः आदित्यो बाजी एताभिरेवास्मै देवताभिर्देवरथम् युनक्ति पृष्टिवाहि नञ्जुनक्ति पृष्टिवाही मै देवरथः देवरथमेवास्मै युनक्ति बाजिनवबाजिम् धावतकाष्ठाङ्गच्छतेत्याह सुवर्गो वै लोकः काष्ठाः सुवर्गमेव लोकयन्ति सुवर्गम् वा एते लोकयन्ते य आजिन्धावन्ति प्राो धावन्ति प्राणि बहि सुवर्गो लोकः चतसृभि मन्त्रयते चत्वारि छन्दांसे छन्दोभिरेवैनाञ्छर्गम् लोकम् गमयति प्रवा एतेऽस्माल्लोकाच्यमन्ते य आजिन्धावन्ति उदम् च आवर्तन्ते अस्मादेव लो तेन लोकान् नयन्ति रथविमोचनीयम् जुहोतिप्रतिष्ठित्यै आमावाजस्य प्रसवोजगम्यादिक्राह अन्नम् वै वाचः अन्नमेवावरुन्धे यथा लोकम् वा एत उज्जन्ति य आजिन् धावन्ति कृष्णलम् लंग, कृष्णलम् वा जसद्भ्यः प्रयच्छति यमेव देवाजम् लोकमुज्झजन्ते त्वम् परिक्रीगावरुन्धे एकथा ब्रह्मण उपहरति एकथैव यदमाने वीर्यम् दधाति देवा वा ओषधे श्वाजिमयोः तारहस्तदजयत् स नैवारान्निरवृणीत तन्नैवाराणान्नैवारत्वम् नैवारश्चरुर्भवति एतद्वै देवानाम् परममन्नम् यन्निवाराह परमेणैवास्मान्नाद्येनापरमन्नाद्यमवरुन्धे सप्तदश शरामो भवति सप्तदशः प्रजापतिः प्रजापतेराप्यै क्षीरे भवति ऋचमेवास्मिन् सर्पिश्वान्भवति मे धत्वाय बाहस्पत्यो वा एष देवतया यो वाचपेजेन यजते बालहस्पत्य एष चरुः अश्वान्सरिशरः ससृशश्चावघ्रापयति यमेव ते वाजम्लोकमुज्जयन्ति तमेवावरुन्धे अजीजिपदवनस्पतय इन्द्रम् वाजम् विमुच्यध्वमिति दुन्दुभेन विमुञ्चति यमेव देवाजम् लोकमिन्द्रियम् दन्दुभय उज्जयन्ति तमेवावरुन्धे ता तार्यम् यजमालम् परिधापयति पर यज्ञो वै तार्यम् यज्ञेनैवै नगुम् समर्थयति गर्भमयम् परिधापयति पवित्रम् पर वै पुनात्येवैनम् वाजम् वा एशो वरुरुत्सते यो बाजते येन यजते ओषधयः खलु वै वाजः यद्दर्भमयम् परिधापयति वाजस्यावरुध्यै जाजये हि सुभोरोहावेद्याः पत्न्या एवैष यज्ञस्यान्वारम्भोऽनवच्छित्यै सप्तदशारत्निर्योपो भवति सप्तदशः प्रजापतिः प्रजापतेरात्ये कोपनश्च दुरश्रीर्भवति गोधूमम् च कारम् न वा एते ब्रेहयोनयवाह यद्गोधूमाः एवमिव हि प्रजापतिः समृद्ध्यै अथो अमुमेवास्मै लोकमन्नवन्तम् करोति वासोभिर्वेष्टयति एष वैगजमानः यद्योपः सर्वदेवत्याम् वासः सर्वाभिरेवेण देवताभिः समर्थयति अथो आक्रमणमेव तत्सेतुम् यजमानः कुरुते सुवर्गस्य लोकस्य समष्ट्यै द्वादशवाजप्रसवीयानि जुहोति द्वादशवासाः संवत्सरः संवत्सरमेव प्रीणाति अथो संवत्सरमेवास्मा उपदधाति सुवर्गस्य लोकस्य समष्ट्यै दशभिः कल्पैरोहति न वै पुरुषे प्राणाः नाभिर्दशमे प्राणानेव यथास्थानम् कल्पयित्वा स्वर्गम् लोकमेति एतावद्वै पुरुषस्य स्वम् यावत्प्राणाः यावदेवास्यास्ते तेन सह सुवर्देवागुम् अगन्मेत्याह सुवर्गमेव लोकमेति अमृता अभूमेत्याह अमृतमिव हि सुवर्गो लोकः प्रजापतेः प्रजा, प्रजा अभूमेत्याह आशिषमेवैतामाशास्ते आसपुटैर्घ्नन्ति अन्नम् वा इयम् अन्नाद्येनैवैरगम् समर्धयन्ति ओषैर्घ्नन्ति एतेः साक्षादन्नम् यदोषाः साक्षादेवैनमन्नाद्येन समर्थयन्ति पुरस्तात्प्रत्यञ्चम् घ्नन्ति पुरस्ताद्यप्रतीचेन मन्नमद्यते शीर्षयो घ्नन्ति शीर्षतोह्यन्न मद्यते दिग्भ्यो घ्नन्ति दिग्भ्य एवास्मा अन्नाद्यमवरुन्धते ईश्वरो वा एष पराङ्मृतघः यो यो पगुम् रोहति हिरण्यमध्यवरोहति अमृतम् वै हिरण्यम् अमृतकम् सुवर्गो लोकः लोके प्रतिष्ठते शतमानम् भवति शतायुः पुरुषः शतेन्द्रियः आयुष्येवेन्द्रिये प्रजतिष्ठति पुष्ट्यैव एतद्रूपम् यदजा त्रिः संवत्सरस्यान्यान् पशून् परिप्रजायते हस्तादिनमध्यवरोहति पुष्ट्यामेव प्रजनने प्रजतिष्ठति सप्तान्नहोमाञ्जुहोति सप्त वा अन्नानि यावन्त्येवान्नानि तान्येवावरुन्धे सप्त ग्राम्या ओषधयः सप्तारण्याः उभयेषामवरुद्धे अन्नस्यान्नस्य जुहोते अन्नस्यान्नस्यावरुद्धे यद्वाजपेजजाज्यमवरुद्धस्या स्नेयात् अववरुधेरभ्यर्थ्येत सर्वस्य समवजागजुहोति अनवरुद्धस्यावरुध्यै औदुम्बरेण श्रुवेण जुहोति ऊर्ग्वा अन्नमुदुम्बरः ऊर्ज एवान्नाद्यस्यावरुध्यै देवस्यत्वासविदः प्रसभ इत्याह सरिदर्प्रसूत एवैनम् ब्रह्मणा देवताभिरभिषिञ्चति अन्नस्यान्नस्याभिषिञ्चति अन्नस्यान्नस्यावरुध्यै पुरस्ताः प्रत्यञ्चमभिषिञ्चति पुरस्ताध्यप्रतीचीनमन्न मद्यते शीर्षतोभिषिञ्चति शीर्षदाह्यन्न मद्यते आमुखादन्वः श्रावयति मुखत एवास्मा अन्नाद्यम् दधाति अग्नेस्तासाम्राज्येनाभिषिञ्चामीत्याह एष वा अग्नेः सवः तेनैवेन अभिषिञ्चते इन्द्रस्य त्वासाम्राज्येनाभिषिञ्चामीत्याह इन्द्रियमेवास्मिन्नेतेन दधाति बृहस्पते स्वासाम्राज्येनाभिषिञ्चामीत्याह ब्रह्म वै देवानाम् बृहस्पतेः ब्रह्मणैवेनमभिषिञ्चते दे। सोमग्रहादिष्टापदानि यानि चर्तृभ्य उपहरन्ति अमुवैर्लोकम कर सुराग्रहािस्वानी यानी चाहमे तैर्लोकम कौते अथो उभ्वाषिच्युते जस इंद्रवृद्य अलिता सने स्वते अलुक्त प्रजापति प्रजापतेरात्रि वाजवते धर्माध्यन्दिने अन्नम् वै वाजः अन्नमेवावरुन्धे श्रीविष्णवतीभिस्तृतेरसवने यज्ञो वै विष्णुः पशवश्विः यज्ञ एव पशुशप्रति तिष्ठति प्रहदन्त्यम् भवति अन्तमेवैनग्निःश्रियै गमयति नृषदन्तेत्याह प्रजा वै नृन् प्रजानामेवैतेन सूयते दृशदमित्याह वनस्पतयो वै दृ वनस्पतेनामेवैतेन सूजते भुवनसदमित्याह यदा वैवसीजान् भवति भुवनमघनिति वैतमाहुः भुवनमेवैतेन गच्छति अप्सुषदन्त्वाघृतसदमित्याह अपामेवैतेन घृतस्य सूयते व्योमसदमित्याह यदा वैवसीजान् भवति यो मा गन्विवेतमाहो यो मै वैतेन गच्छति पृथिविशदम् द्वान्तरिक्षसदमित्याह येषामेवैतेन लोकानागुम् सूयते तस्माद्वाजमेयजादीन कञ्चन प्रत्यवरोहति अपि बहि देवतादागुम् सूयते नाकशदमित्याह यदा वेवसीयान् भवति नाकमगन्निवैतमाहोः नाकमेवैतेन ना गच्छति ये ग्रहाः पञ्चजनीह पञ्चजनानामेवैतेन सूयते अपागम्रसमुद्वयसमित्याः अपामेवैते नरसस्य सूयते सूर्यलक्ष्म्यकम् समासृसमित्याः ससुभ्रत्वाय इन्द्राभृतृगम् हत्वा असुरान् पराभाव्य सोमाभास्याम् प्रत्यागच्छत् ते पिताः पोर्वेद्युरागच्छन् यज्ञागच्छत् तम् देवाः पुनरयाचन्त तमेभ्यो न पुनरददुः ते ब्रुवन्वरम् वृणामहै अथः पुनर्दास्यामः अस्मभ्यमेव पोर्वेद्युः क्रियाता इति तमेभ्यः पुनरददुः तस्मात् पितृभ्यः पोर्वेद्युः क्रियते यत्पितृभ्यः पूर्वेद्यः करोति पितृभ्य एव तज्जज्ञम् निष्क्रिय यजमानः प्रतनुते सोमाय पितृपेदायः स्वधानमगित्याः पितुरेवाधिसोमपीठमवरुन्धे न हि पिता प्रमीयमाण आहेश सोमपीठ इति इन्द्रियम् वै सोमपीठः इन्द्रियमेव सो तेनेन्द्वितीया अञ्जायामभ्यश्नुते एतद्वै ब्राह्मणम् पुरावाजश्रवसा विरामक्रान् तस्मात्ते द्वे द्वे जाये अभ्याक्षण यदेवम् वेद अभिद्वितीया अञ्जायामश्नुते अग्नयेकव्यवाहनायस्वधान इत्याह यदेव विदृणामग्निः तम् प्रीणाति तिस्र आहुदेर्जुहोदे त्रिण्दधाति षट् सम्पद्यन्ते षड्वा ऋषवः ऋतो वप्रेणाते प्रीणाति तोष्णे मे क्षड वा दधाति आस्ति वा हि षष्ठ ऋतुर्नवाः देवान वै पुरन् प्रेताः मनुष्याः न प्रपिपते तिस्र आहुदेर्जुहोदे त्रिण्दधाति षट् सम्पद्यन्ते षड्वा ऋतवः ऋतवः खलु मे देवाः पितरः ऋतो नेव देवान्पिरान् प्रीणाति तान् प्रेतान् मनुष्याः पितरो न प्रपिपते सकृदाच्छिन्नम् बर्हिर्भवति सकृदि बहिपितरः प्रर्णि दधाति तृतीयेवा इतो लोके पितरः तानेव प्रीणाति अरागावर्तते प्रेराहि पितरः ष्माव्यावृथ उपास्ते ओष्मभागा हि पितरः ब्रह्मवादिना वदन्ति प्रा यत्प्रास्पीडात् जन्यम् न मद्यात् रमायुगः स्यात् यन्न प्रास्फीडात् अहविः स्यात् पितृभ्यावृष्ट्येत आघ्रेदमेव तन्नेव प्राशितेवाप्राशितम् वीरम् वा पितरः प्रयन्तो हरन्ति वीरम् वा, वा ददति दशाञ्छिनत्ति हरणभागा हि पितरः पितॄनेव निरवदयते उत्तर आयुषिलो मच्छिन्दीत पितृणालुह्येतर्हि मेदीयः नास्करोति नमस्कारो हि पितॄणा नमो भवः पितरो रसाय नमो वः पितरः जीवाय नमो भवः पितरः सुधाये नमो भव पितरो मन्यवे नमो वः पितरो घोराय पितरो नमो वः य य एतस्मिंल्लोके स्थ यूयन् तेषाम् वसिष्ठा भूयास्त ये, ये एस्मिल्लोके अहम् तेषाम् वसिष्ठो भूया समित्याः वसिष्ठः समानानाम् भवति य एवम् विद्वान् विरुभ्यः करोति एष वै मनुष्याणाम् यज्ञः देवानाम् वा चले दे तेन वा एतत्वितिर्लोके चरति यत्पितुर्भ्यः करोति स ये ईश्वरः प्रमेतोः प्राजापत्ययर्चा पुनरैति यज्ञो वै प्रजापतिः यज्ञेनैव सह पुनरैति न प्रमायुको भवति पितृलोके वा एतद्यजमानश्चरति यत्पितृर्भ्यः करोति स आर्तिमार्तोः प्रजापतिस्त्वा वै नन्देतुमर्हरेत्याहुः प्रजापत्य यत्प्राजापत्यचर्चा पुनरेते प्रजापतिरेवैरन्तदपुन्नजते नाष्टयजमानः ओ इति प्रथमाष्टके तृतीयप्रश्नः समाप्तः